अत द्वितीयाष्टक प्रथमप्रश्नप्रारम्भः अन्यसोऽगी सत्रमासता तेषाम् प्रश्नर्घर्मधुगासीद सर्जेशेणाजीवत् ते, ते, सर्जेशे ते ब्रुवन् कस्मै सत्रमास्महे एस्या स्या ओषधेऽर्न जनजामदिते ते दिवो वृष्टिमसृगन्ता वन्तस्तोका आपद्यन्त तावतीरोषधयो जायन्त ता, ता जाताः पितरो विषेणालिम्बन् तासाः जग्ध्वारुप्यन्त्यैत् ते ब्रुवन् करिदमित्थमकरिति वयम् भागधेयमिच्छमानाथ पितरोब्रुवन् किम्बो भागधेयमिति अग्निहोत्र एव नाप्यस्थित्यब्रुवन् तेभ्य हेतद्धागधेयम् प्रायच्छन् यद्धत्वा निमार्ष्टि ततो वेत ओषधी हस्वदयन् य एवम् वेद स्वदन्ते स्मा ओषधयः ते वत्समुपावासृजन् इदन्नो प्रदापयेति सोऽब्रवीद्वरम् वृणै रषमारात्रेर्जातन्न दोहन् आसङ्गवम् मात्रा सहचराणे ते तस्माद्वत्सञ्जातम् दशरात्रेर्णदुहन्ते आसङ्गवम् मात्रा सहचरते वारे पृथग्गृह्यस्य तस्माद्वत्सगम् सगम् सृष्टधयम् रुद्रोघातुकः अतिः सन्धान्धते प्रजापतिरग्निमसजत तम् प्रजानन्वसृज्यन्त तमभाग उपास्त सोऽस्य प्रजाभिरपाक्रामत् तमवरुरुत्समानोऽन्वैयेत् तमवरुधन्नाशक्नोत् स तपोदप्यता सोऽग्निरुपारमतापि वैश्च प्रजापतिरुति सराटादुदमृष्टा तद्धृतमभवत् तस्माद्यस्य दक्षिणतः केशामृष्टाः तान् ज्येष्ठलक्ष्मेः प्राजापत्येत्याहो यद्रराटा दुदमृष्टा तस्माद्रराटे केशानसंते न सन्ति तर्हत्नोऽ प्रागृह्णात् तद्यचिकित्सत् जुहानि निते तद्विचिकित्सायै जन्म य एवम् विद्वानपि चिकित्सति वसीय एव चेतजरे तम् वारभ्यवद सोऽब्रवीर् तस्त्वमसीते स्वैव देवागित्यब्रवीर् सोऽजुहोत्स्वाहेते तत्स्वाहाकारस्य जन्म य एव ग्रस्वाहाकारस्य जन्म वेद तरोगिस्वाहाकारेण वीर्यम् यस्यैवम् यदुषः स्वाहाकारेण जुह्वति द्वितीयमजुहोल सोऽश्वमसृजत तृतीयमजुहोद सगामसृजत चतुर्थमजुहोल सोऽमसृजत पञ्चममजुहोल सजामसृजत सोऽज्ञरबिभेद सो आहुलेभिर्वयि माप्नोके स जायस्वेति सोऽब्रवीत् किम् भागधेयमभिजनिष्य इति तुभ्यमेवेदकम् होजाता इत्यब्रवीत् स एतद्भागधेयमभ्यजायत यदग्निहोत्रम् तदस्मादग्निहोत्रमुच्यते तद्धूयमानमादित्यो ब्रवीत् माहौषीः उभयोर्वैनामेतदिति सोऽग्निरब्रवीत् कथम् नौ होष्यन्तीति सायमेव तुभ्यम् जुहवन् प्रातर्मलह्यमित्यब्रवीत् तस्मादग्नजे सायगम् भूयते सौर्याय प्रातः रात्रिहे ऐन्द्रमहः यदनुदिते सूर्ये प्रातर्जुहुयात् उभयमेवाग्नेयग्भ्यः स्यात् उदिते सूर्ये प्रातर्जुहोदे तथाग्नजे सायगम् हूयते शौर्याय प्रातः रात्र्यम्बा नलु प्रजाः प्रजायन्ते अह्ना प्रतिष्ठन्ति यत्सायम् जुहोति प्रैवतेन जायते उदिते सूर्ये प्रातर्जुहोति प्रत्येव तेन तिष्ठति प्रजापतिरकामयतः प्रजायजेति स एतदग्निहोत्रमिथुनमपश्यत् तदुदिते सूर्ये जुहोत् यजुषान्यत् तूष्णीमन्यत ततो वै स प्राजायत यस्यैवम् युदुष उदिते सूर्येऽग्निभोत्रम् जुह्वति प्रैव जायते अथो यथा दिवा प्रजानन्नेते तादृगेऽर्वदत् अथो खिल्बाहुः यस्य वै द्वौ गृहे वसतः यस्तयोरन्यकम् राधयत्यण्यान्ना गौ वा अग्न्यम् वावादित्यः सायम् प्रविशति तस्मादग्निर्दूरान्नक्तम् ददृशे उभेहि तेजसे सम्पद्येते उद्यन्तम् वावादित्यमग्निरनुसमारोहति तस्माद्धूमये वाग्नेर्दिवादृशे यदग्नये सायम् जहुयात् आसौर्याय वृश्येत यत्सौर्याय प्रातर्जुहुयात् आनजे वृष्येत देताभ्य समद्याज्योतिर्ज्योति दे स्वाहे सायकम होत सौर्जो ज्योतिर्ज्योतिरस्वाहे तथोभाभ्यायकम भूजते उभा न देताभ्य सदन दधाते अनेज्योति अग्निर्वैरेतोधाः प्रजा ज्योतिरित्याह प्रजा एवास्मे प्रजनयति सूर्योज्योतिरित्याः प्रजास्वेव प्रजातास्वेतोदधाति ज्योतिरग्निस्वाहेत्याः प्रजा एव प्रजाता अस्याम् प्रतिष्ठापयति तूष्णीमुत्तरामाहुतिम् जुहोति धनत्वाय प्रजात्ये यदुदिते सौर्ये प्रादर्जुहुजात् यथादि प्रदृताय शून्यायावसथायाहार्यगम् हरन्ति तादृगेव तत् क्वाह ततस्तद्भरीत्याहुः यत्सनवेद यस्मैतद्धरन्तीति तस्माद्यदौषसञ्जुहोति तदेव सम्प्रति अथो यथा प्रार्थमौषसम् परिवेवेष्टे तादृगेव तत् रुद्रो वा एषः यदग्निः पत्नी स्थाले यन्मध्येऽग्नेरधिश्रयेत् रुद्राय पत्नीमपि दध्यार प्रमायुका स्यात् उदेचोऽङ्गाराम् निरोह्याधिश्रयति पत्न्यैगोपीठाय द्यन्ताम् करोति तथा पत्न्यप्रमायुका भवति धर्मो वा एषो शान्तः अहरः प्रवृज्यते यदग्निहोत्रम् प्रतिषिञ्चेत् पशुकामस्य शान्तमिवहिपशव्यम् न प्रतिषिञ्चेत् ब्रह्मवर्चसकामस्य सविद्धमिवहिब्रह्मवर्चसम् असौ खलु प्रतिषिच्यमेव यत्प्रतिषिञ्चति तत्पशव्यम् यज्जुहोति तद्ब्रह्म वर्चसि उभयमेवाकः प्रच्युतम् वा एतदस्माल्लोकार् अगतम् देवलोकम् यच्छ्रुतगुम्हविरनभिधारितम् अभिद्योतयति अभ्येवैनद्धारयति अथो देवत्रय वैनद्गमयति पर्यग्निकरोति रक्षसामपहत्यै त्रिःपर्यग्निकरोति या अथो मेऽध्यत्नाय यत्प्राचीनमुद्वासयेत् यजमानगुम् सुचार्पयेत् यद्दक्षिणा पितृदेवत्यज्ञः स्यात् यत्प्रत्यगपत्नीगुम् सुचार्पयेत् उदीचीनमुद्वासयति एषा वै देवमनुष्याणागुम् शान्ताय तानेवै नदनुद्वासयति शान्त्यै वर्त्म करोति यज्ञस्य सन्तत्यै नष्टपदि उपैव तत्स्त्रिणाति चतुरम् नयति चतुष्पादः पशवः पशोनेवावन्धे सर्वान् पूर्णानुन्नयति सर्वेः प्रजाया अनोचेनत्वाय अनोच्येवास्य प्रजार्धुका भवति संमृशति व्यावृत्यै यहोष्यन्मुपसादयेत् यथा अन्यस्मा उपनिधाय अन्यस्मै प्रयच्छति तादृगेव तत् आस्मै वृश्चेत यदेव गार्हपत्येऽधिश्रयति तेन गार्हपत्यम् प्रीणाति अग्निरभिधेत् आहुतयोमात्येष्यन्तीति स चेतागुम् समिधमपश्यत् तामाधत्ता ततो वा अग्नावाहुतयोद्धिजन्त यदेनगम् समयच्छत् तत्समिधः समित्वाम् समिधमादधाति समेवैनम् यच्छति आहुतेनाम् भृत्यै अथो अग्निहोत्रमेवे ध्ववत्करोति आहुतेनाम् प्रतिष्ठ्यत्यै अथ कस्यागम् समिधि द्वितीयामाहुतिम् जुहोतीति यद्वे समिधा वा रुद्ध्यात् भ्रातृमस्मे जनयेत् एकागम् समिधमाधाय यजुषा न्यामाहुतिम् उभे एव समिद्वती आहुते जुहोति नास्मे भ्रातृयम् जनयति आदि एक्तायाम् जुहोति समिद्धमिवहि अधो जातिथिञ्ज्योतिष्कृत्वा परिबेवेष्टि तारिरेव तत् चतुरम् नयति द्विर्जुहोति तस्माद्विपाच्चतुष्पादमत्ति अथो अद्विपद्येव चतुष्पदः प्रतिष्ठापयति उत्तरावतीम् वैदेवा आहुतिव जुहवुः अवाचि मसुराः ततो देवा अभवन् परासुराः यङ्कामये तपसीदाम् स्यादिति कनीजस्तस्य पूर्वगम् भुत्वा उत्तरं भूयोजुहुयात् एषा वा उत्तरावत्याहुतिः ताम् रेव अजुभगुः ततस्ते भवन् यस्यैवम् जुह्वति भवत्येव यङ्कामये तपापीजाम् स्यादिति भूयस्तस्य पूर्वगम् भुत्वा एषा वा तामसुरा अजुहवुः ततस्ते पराभवन् यस्यैवम् जह्वली परैव भवति त्वोपसादयत्यजामित्त्वाय अधो व्यावृत्त्यै गार्हवत्यम् प्रती एक्षते अननुध्यायनमेवैनम् अग्निहोत्रस्य वै स्थाणुरस्ति तञ्यरिच्छेत् एष वा अग्निहोत्रस्य स्थाणुः यत्पूर्वाहुतिः ताञ्यदुत्तरयाभिजुहुयाद् यज्ञस्थानुमृच्छेद् अतिहायपूर्वामाहुतिम् जुहोति यज्ञस्थानमेव परिवृणक्ति अधोभ्रातृभुजमेवाप्त्वातिक्रामति अवाची न पुंसायमुपमाष्टि प्रातः रजनयत्येव तत् ब्रह्मवादिनो वदन्ति चतुर्नयति द्विर्जुहोति अथक्वद्वे आहुते भवत इति अग्नौ वैश्वानर इति ब्रूयात् एष वा अग्निर्वैश्वानरः यद्ब्राह्मणः हुत्वाद्ग्यः प्राश्नाति अग्नादेव वैश्वानरे द्वे निवार्ष्टे दिःप्राश्नादि षक्षम्पद्यन्ते षड्वाः ऋतोनेव प्रेणादि ब्रह्मवादिनो वदन्ति किम् देवत्यमग्निहोत्रमिति वैश्वदेवमिति ब्रूयात् यद्युहोति तथेन्द्राग्नम् यत्तूष्णीम् तत्प्राजापत्यम् यन्निवार्ष्टि तदौषधीनाम् यद्वितीयम् तदपितॄणाम् यदत्राश्नाति तद्गर्भाणाम् तस्माद्गर्भा अनश्म्यन्तो वर्धन्ते यदाचामति तन्मनुष्याणाम् उदङ्पर्यावृत्त्याचामति आत्मनो गोपेथाय निर्णेनेक्तिशुद्ध्यै निष्टप्रतिस्वकावृत्यै उद्दिशति सप्तर्षीणेव प्रीणादि दक्षिणापर्यावर्तते स्वमेव वीर्यमनुपर्यावर्तते तास्मात् दक्षिणोऽर्थ आत्मनो वीर्यावर्त्तरः तथो आधिक्यस्यैवावृतमनुपर्यावर्तते त्वोपसमिन्धे ब्रह्मवर्चस्य समिद्धे न दर्हिरनु प्रहरेत् असर्गस्थितो यज्ञः यदग्निहोत्राम् यदनुप्रहरेत् यज्ञम् विच्छिन्द्यात् तस्मान्नानुप्रहृत्यम् यज्ञस्य सन्तत्ये अवनुनयति अवभृथस्यैव रूपमकः ब्रह्मवादिना वदन्ति अग्निहोत्रप्रायणा यज्ञाः किम् प्रायणमग्निहोत्रमिति वत्सो वा अग्निहोत्रस्य प्रायणम् अग्निहोत्रम् यज्ञानाम् तस्य पृथिवीसदः अन्तरिक्षमाग्नेघ्रम् द्योरहविर्धानम् विद्या आमः प्रोक्षणयः ओषधयो बर्हिः परस्पतय विध्मः दिशः परिधयः आदित्योजोपः यजमानः पशुः समुद्रोपभृतः संवत्सरस्वगाकारः तस्मादाहिताग्नेः सर्वमेव बर्हिष्यन् दत्तम् भवति यत्सायम् जुहोति रात्रिमेव तेन दक्षिण्याम् कुरुते यत् प्रातः अहरेव तेन दक्षिण्यम् कुरुते यत्ततो ददाति सा दक्षिणा यावन्तो वे देवाहुरमादन् ते पराभवन् एतदग्निहोत्र सर्वस्यैव समवदा या अग्निहोत्रम् मे देवागृहाणान्निष्कृतिमपश्यन्निति यत्सायम् जुहोति रात्रिजा एव तद्धुताद्याय विजमानस्यापराभावाय यत्प्रातः अह्न एव तद्धुताद्याय विदमानस्यापराभावाय यत्ततोऽश्नाति हुतमेव तत् वयोः पयसा जुहुयात् पशुकामस्य एतद्वा अग्निहोत्रम् मिथुनम् य एवम् वेद प्रजया पशुभिर्मिथुनैर्जायते इमामेव पूर्वजागुहे अमोमुत्तरया अधिश्रित्योत्तरमानयति योनादेव तद्रेतस्य प्रजनने आज्येन जुहयात्तेजःकामस्य ते तेजो वा आज्यम् तेजस्येव भवति वयसा पशुकामस्य एतद्वै पशो, पशो नागम् रोपाम् रूपेणैवास्मै पशोनवरुन्धे पशुमानेव भवति दध्नेन्द्रियकामस्य इन्द्रियम् वैदधि इन्द्रियाव्येव भवति याग्वा या ग्रामकामस्यौषधावेवष्याः भागधेयेनैवास्मै स जाता नवरुन्धे ग्राम्येव भवति अयज्ञो वा एषः योऽसा मा चतुरन्नयति चतुरक्षरगम् रथन्तरम् रथन्तरस्येष वर्णः उपरी वहरति अन्तरिक्षम् वामदेव्यम् वामदेव्यस्येष वर्णः द्विर्जुहोति बृहत् बृहत एष वर्णः अग्निहोत्रमेव यो, पसदो नम पसदो यो वा अग्निहोत्रस्योपसदो वेद उपैनमुपसदो नमन्ति विन्दत उपसत्तारम् उन्नीयोपसादयति पृथिवीमेव प्रीणाति होर्षन्नुपसादयति अन्तरिक्षमेव प्रीणाति सुहत्वोपसादयति दिवमेव प्रीणाति एतावा अग्निहोत्रस्योपसदः य एवम् वेद उपैनमुपसदो नमन्ति इन्दत उपसत्तारम् यो वा अग्निहोत्रस्याश्रावितम् प्रत्याश्रावितगुम्होतारम् ब्रह्माणम् वषट्कारम् वेद तस्यत्वेव हुताम् प्राणो वा अग्निहोत्रस्याश्रावितम् अपानः प्रत्याश्रावितम् मनो होता चक्षुर्ब्रह्मा ग्नेशो वषट्कारः य एवम् वेद तस्यत्वेव हुताम् सायञ्जावानश्च वै देवाः प्रातर्यावाणश्च अग्निहोत्रिणो गृहमागच्छन्ति तानि न तर्पयेत् प्रजयास्य पशुभिर्वितिष्ठेलन् यत्तर्पयेत् तृप्ता एनम् प्रजया पशुभिस्तर्पयेयः स जोर्देवैः सायञ्जावभिरिति सायगम् सम्मृशति स जोर्देवैः प्रातर्यावभिरिति प्रातः ये चैव देवाः सायञ्या बाणो ये च प्रातर्या बाणः तानेवोभयाभिः तर्पयति तजनन्त्र प्रजया पशुभिः स्तर्पयन्ति अरुणो हस्माहौपवेशिः अग्निहोऽत्र एवाहगम् सायम् प्रातर्वज्रम्भातृव्येभ्यः प्रहरामि तस्मान्मत्पापीजागम् सा भ्रातृव्यादि चतुरन्नयति गर्जहति समित्सप्तमी सप्तपदाशक्वरी शात्वरो वज्रः अग्निहोत्र एव तत्सायम् प्रातरवज्रयवाना भ्रातृव्याय प्रहरति भवत्यात्मना प्रास्य भवति प्रजापतिरकामयतात्मन्वन्मे जायेतेति सोऽजुहोत् तस्या आत्मन्वदजायत अग्निर्वाजुरादित्यः ते ब्रुवन् प्रजापतिरहौषीदात्मन्वन्मे जायेतेति तस्य भयमजनिष्महि जायतान्न आत्मन्वदिति जुहवोः प्राणानामग्निः तनुवै वायुः चक्षुष आदित्यः एषादम् हुतादजाय च गौरेव तस्यैपयसि व्यायच्छन्त मम हुतादजनिममेति ते प्रजापतिम् प्रश्नमाजन् सादित्यो अग्निमब्रवीत् यतरो नौदयात् कन्नौ सहासदिति कस्यैको हौषीदिति प्रजापतिरब्रवीत् कस्यैक इति प्राणानामहमित्यग्निः तनु अहमिति वायुः चक्षुषोऽहमित्यादित्यः य एव प्राणानामहोषेत् तस्य हुतात् जनेति अग्नेर्हुतात् जनेति तदग्निहोत्रस्याग्निहोत्रत्वम् समर्थयति अव्यर्थकः भवति य एवम् वेद तौ वायुरब्रवीत् अनुमाभजतमिति यदेव गार्हवत्येभ्यश्रत्याः वनीजमभ्यद्रमान् तेन ताम् प्रीणानित्यब्रूताम् तस्माद्यद्गार्हवत्येभ्यश्रत्याः वनीजमभ्यद्रवति वायुमेव अग्निमेव देवतानाम् रथममसृजत सोऽन्यदालम्भ्यमभित्वा प्रजापतिमभिपर्यावर्तत स मृत्योरभिधेत् सोऽवाधित्यमात्मा निरमिमीत तगुम्हत्तापराम् पर्यावर्तत ततो वै स मृत्यमपाजयत् अपमृत्यम् जयति य एवम् वेद तस्माद्यस्यैवम् विदुषः उतैकाहमुदव्यहन्न जुह्वति उतमेवास्य भवति असौह्यादित्योऽग्निहोत्रम् रहोद्रम् गवी वायव्यमुपसृष्टाम् आश्रियम् दुह्यमानम् सौम्यम् दुग्धाम् वारुणमधिश्रिताम् वैश्वरे वाभिन्दवः ओष्णमुदन्ताम् सारस्वतम् विष्यन्दमानाम् धातुरुद्वासितम् बृहस्पतेरुन्नीतम् सवितुः प्रक्रान्तम् द्यावापृथिम् यज्ञः क्रियमाणम् ऐन्द्राग्नमुपसन्नम् अग्नेः पूर्वाहुतिः प्रजापतेरुत्तरा ऐन्द्रगम् हृताम् दक्षिणत उपसृजति पितृलोकमेव तेन जयति प्राचीमावर्तयति देवलोकमेव जयति उदीचे मावृत्यलोग्धि मनुष्यलोकमेव तेन जयति पूर्वोदिह्यात् ज्येष्ठस्य ज्येष्ठिनेजस्य यो वा गतश्वे स्यात् अपरोदिक्यात् कनिष्ठस्य कानिष्ठिनेजस्य यो बाबुभूषेत् न संवृशति मेत्रम् दुग्धम् परिजम् न उद्दास्यमानम् त्वाष्ट्रमुन्नीयमानम् बृहस्पतेरुन्नीतम् सवितुः प्रक्रान्तम् दयावापृथिव्यग्रह्रियमाणम् ऐन्द्रार्गमुपसाधितम् सर्वाभ्यो वा एष देवताभ्यो जुहोति यो आज्ञ होत्रम् जुहोति यथा खलु वैधेदन् देयुर्थे तर्पयति एवमग्निहोत्रे युगमानम् तर्पयति तृप्यति प्रजया पशुभिः पसुवर्गालाकम् जानाति पश्यति पुत्रान् पश्यति पौत्रान् प्रप्रजया पशुभिर्विधनैर्जायते यस्यैवम् विदुषोऽग्निहोत्रम् जुह्वति वेद त्रयो वै प्रियमेधासन् तेषाम् त्रिरेकोग्निहोत्रमजुहोद्विरेकः सकृदेकः तेषाम् यस्त्रिरजुहोत् स रजाजुहोत् यो द्विः स यजुषा यः सकृत् स तूष्णीम् यश्च यजुषाजुहोद्यश्च तूष्णीम् तावुभावार्ध्वताम् तस्माद्यजुषाहुतिः पूर्वाहोतव्या तूष्णीमुत्तरा उभे एवर्थी अवरुन्धे अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायम् जुहोति रेत एव तद्दधाति सौर्जोर्ज्योदर्ज्योतिःसौर्जस्वाहेति प्रातः रेत एव हितम् प्रजनयति रेतो वा एतस्य हितम् न प्रजायते यस्यात्मिहोत्रमहुतगुंसोऽर्गोद्भ्युदेति यद्यन्ते स्यात् उन्नीयप्रामुदा द्रवेत् स उपसाद्यात्ममितोरासीद स यदा ताम्येत् अथ भूस्वाहेत् जुहुयात् प्रजापतिर्वैभूतः तमेवोपासरत् स यदग्निमुद्धरति वसवस्त्रह्यग्निः तस्मिन् यस्य तथाविधे जुह्वति वसष्वेवास्याग्निहोत्रगम् हुतम् भवति निहितो धूपायञ्छेते रुद्रास्तर्ह्यग्निः तस्मिन् यस्य तथाविधे जुह्वति रुद्रेष्वेवास्याग्निहोत्रगम् हृतम् भवति समविध्वमर्चिरालभते आदित्यास्तर्भ्यग्निः तस्मिन यस्य तथाविधे जुह्वति आदित्येष्वेवास्याग्निहोत्रगम् भवति सर्व एव सर्वश्म आदियेतो भवति विश्वे देवास्तर्भ्यग्निः तस्मिन यस्य तथाविधे जुह्वति विश्वेष्वेवास्य भवति नितरावर्चिपा वैति लोहिणीक इंद्रस्तर्ह तस्थाधे जुह्वती इंद्र एववा सहुत अंगारा भवि तेभ्योंगारेभ्योर्चिपेति प्रजापति जुख्वती प्रजापता देवास्याग्निहोत्र गम् हृतम् भवति शरोङ्गारा अध्यूहन्ते ब्रह्मदर्ह्यग्निः तस्मिन् भवति वसुशूद्रेष्वादित्येषु इन्द्रे प्रजापतो ब्रह्मन् अपरिवर्गमेवास्यैतासु देवतासु हृदम् भवति यस्यैवम् युषो अग्निहोत्रम् जुक्पति यवुचेन देवम् वेद ऋतम् त्वा सत्येन परिषिञ्छमीति सायम् परिषिञ्झति सत्यम् त्वत्तेन परिषिञ्छमीति प्रातः अग्निर्वाहिताम् अवसावादित्यः सत्याम् अग्निमेव तदादित्येन सायम् परिषिञ्छति अग्निनादित्यम् रातः यावदः यावदहोरात्रे भवतः तावदस्य लोकस्य नार्तिर्न वृष्टिः नान्तो न ना पर्यन्तोऽस्ति यस्यैवम् विदुषाग्निहोत्रम् जुह्वजि यगुचैन देवम् वेद इति द्वितीयाष्टकप्रथमप्रश्नः समाप्तः